भीष्म उवाच देवगन्धर्वरत्नानि दैतेयासुरजानि च यानि सन्तीह रत्नानि या नरकस्य निवेशने एतत्तु गरुडे सर्वं तत्र पुण्याववुर्वाताः प्रभाश्चित्राः समुज्ज्वलाः प्रेक्षताम् सुरसङ्घानाम् विस्मय समपद्यता त्रिदशारुषयश्चैव चन्द्रादित्यौ यथादिवि प्रभयातस्य शैलस्य निर्विशेषमिवाभवत् अनुज्ञातस्तु रामेण वासवेन च केशवः प्रीयमाणो महाबाहुर्विवेशमणिपर्वतम् तत्र वैडूर्यवर्णानि सतोरणपताकानि द्वाराणि शरणानि च चित्रग्रथितमेघाभः प्रभौ मणिपर्वतः हेमचित्रपताकैश्च प्रासादैरुपशोभितः हर्म्याणि च विशालानि मणिसोपानवन्ति च तत्र स्थावरवर्णाभादृशुर्मधुसूदनम् गन्धर्वासुरमुख्यानाम् प्रिया तम सजित